श्रीमद्भागवतपुराणं श्रीमद्भागवतमहात्म्ये चतुर्थोऽध्यायः स्नानशौचक्रियाहीनो दुर्भक्षिक्रोधवर्धितः दुष्परिग्रहकर्ता च स्वहस्तेन भोजनं चौर सर्वजनद्वेषी पर्वे स्म प्रदीपकः लाणनां यार्भकान्धित्वा सद्यकूपेन पातयत् हिंसकशस्त्रधारी च दीनान्धानां प्रपीडकः चाण्डालाभिरतो नित्यं पासहस्त स्वसङ्गतः तेन वेश्याकुसङ्गेन पित्रं वित्तं तु एकदा पितरौ ताड्यपात्राणि स्वं स्वयमाहरत् तत्पिता कृपण प्रोच्चैधनहीनोरुरोधः मन्ध्यस्त्वं तु समीचीनं कुपुत्रो दुःखदायकः क्वष्ठामि कुगच्छामि को मेत् दुःखं व्यपोहयेत् प्राणास्त्यजामि दुःखेन हा कष्टं मम संसितम् तदानीं तु समागत्य गोकर्णो ज्ञानसंयुतः जनकं वैराग्यं परिदर्शयन् असार खलु संसारो दुःखरोऽपि विमोहकः श्रुतः कस्य धनं कस्य स्नेहमाज्ज्वलते निशं न चेन्द्रस्य सुखं किञ्चिन्न सुखं चक्रवर्तिनः सुखमस्ति विरक्तस्य मुनेरेकान्तजीविनः मुञ्चाज्ञानं प्रजारोपं मोहतो नरके गतिः निपतिष्यति देहोऽयं सर्वं त्यक्त्वा वनं व्रज तद्वाक्यं तुषां समाकर्ण गन्तुकामपिताब्रवी किं कर्तव्यं वनेतात् तत्वं वद सविस्तरम् अन्धकूपे स्निहपासे बद्धपङ्गुरहं सठ कर्मणा पतितो नूनं मामुद्धर दयादिदे गोकर्ण उवाच देहेऽस्थीमांसरुध्रेऽभिमद्मतिं त्यज त्वं जायासुतादिसुसदा मम तां मुं च पश्यानिसं जगदिदं क्षणभङ्गनिष्ठं वैराग्यरागरसिको भवभक्तिरिष्ठ धर्मं भजस्व सततं त्यज लोकधर्मान् सेवस्य साधुपुरसाञ्जहि कामतृष्णाम् अन्यत्र दोषगुणचिन्तनमाशु भुक् मुक्त्वा सेवाकथा रसन्महो नितरां बिबत्वम् एवं सुतोक्तिवसतोऽपि गृहं विहाय यातो वनं स्थिरमतिर्गतषष्टिवर्ष युक्तो हरेण निचर्यमासौ श्रीकृष्णमापननियतं दशमस्य पाठात् श्री श्रीमद्भागवत्पुराणे उत्तरखण्डे श्रीमद्भागवत् महात्म्ये दिप्रमोक्षोनां चतुर्थोऽध्यायः